तं गन्धमादनं अतिक्रम्यत ततोऽर्जुनः केतुमालं विवेशाथ वर्षं रत्नसमन्वितं सेवितं देवकल्पैश्च नारिभिः प्रियदर्शनैः तञ्चित्वा चाचिनो राजन्करे च चा विनिवेश्य च आहृत्य तत्र रत्नानि दुर्लभानि तथार्जुनः पुनश्च परिवृत्याथ मध्यं देशमिलावृतं गत्वा प्राचीनदिशं राजन् सव्यसाची परन्तपः मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् एते कीचकवेणूनाञ्छायां रम्यामुपासते खशाञ्झपांश्च नद्यूतान् प्रवशान् दीर्घवेणिकान् पशुपांश्च कुलिन्दांश्च तङ्गणान् परतङ्गणान् रत्नान्यादाय सर्वेभ्यो माल्यवन्तं ततो तं माल्यवन्तं शैलेन्द्रं समतिक्रम्य पाण्डवः भद्राश्वं प्रविवेशाथ वर्षं स्वर्गोपमं शुभं तत्रामरूपमान् रम्यान् पुरुषान् सुखसंयुतान् जित्वा तान् स्ववशे कृत्वा करे च आहृत्य सर्वरत्नानि असङ्ख्यानि ततस्ततः नीलन्नामगिरिं गत्वा तत्रस्थानजयत् प्रभुः ततो जिष्णुरतिक्रम्य पर्वतन्नीलमायतं विवेशरम्यकं वर्षं सङ्कीर्णं मिथुनैः शुभैः तन्देशमथ चित्वा च च विनिवेश्य च